हरि श्री श्रीजगम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे पञ्चमोऽध्यायः ब्रह्मोवाच इत्युक्त्वा विरते वैष्णोदेवदेवे जनार्दने उवाच शङ्कर शर्वप्रणतः पुरतः स्थितः शिवोवाच यदि हरिस्तव देवी विभावज तदनु पद्मज एव तवोद्भव किम्भयमत्र तवापि न सद्गुणसकलोकविधौ चतुराशिवे त्वमसि भूसलिलम् पवनस्तथा कम् अपि वन्दिगुणश्च तथा पुनः जनरी तानि पुनः करणानि च त्वमसि बुद्धिमनोप्यथहङ्कृतिम् च विदन्ति वदन्ति च येनथा हरिहराजकृतं निखिलं जगत् तव कृताश्रयैव सदैव ते विचरयन्ति जगत्सचराचरम् अवनिवायुख वह्निजलादिभिः सविषये सगुणैश्च जगद्भवेत् यदि सदा कथमद्य च तत्पुटं प्रभवतीति तवाम्बकलामृते भवति सर्वमिदं सचराचरम् शिवाकृतिकल्पितम् विलिरवे च विलासकुतूहलै विरमसे रमसेऽम्बय तारुचि सकलोकशिशुक्षुरहं हरि कमलभू व पदाम्बुज पान्तु परिग्रहम् समधिगम्य तदा ननु चक्रिम यदि दयाग्रमनान सदाम्बिके कथमहं विहितश्च तमोगुणः कमलजश्च रजोगुणसम्भव सुविहित किमु सत्व गुणो हरि यदि न ते विषमामतिरम्बिके कथमिदं बहुधा पिहितं जगत् सचिव भूपतिभृत्य जनावृतम् बहुधनैरधनै च समाकुलम् तव गुणाश्रयैव सदा क्षमाः प्रकटनावनसंहरणे हरिहर द्रीणा च क्रमः त्वया विरचिता श्री जगतां किल परिचितानि मया हरिणा तथा कमलजेन विमानगतेन वै पतिगतैर्भुवनानि कृतानि वा कथयकेन भवानि नवानि च स्रजसि पासि जगज्जङ्गं जगज्जगदम्बिके सैकलया कियदीच्छति नाशितुं रमयसे सपतिं पुरुषं सदा तव गतिं नहि विद्म वयं शिवे जननिरेहि पराम्बुजसेवनं युवति भागवता न पि नस्तर पुरुषतामधिगम्य पदाम्बुज विरहितार्पलभेम सुखं स्फुटं नरुचिरस्ति ममाम्ब तव विहाय शिवे भुवनेश्वरम् निवसितुं न रवेहमवाप्य च त्रिभुवनस्य पति त्वमावाप्य वै सुनती नास्ति मनगपि मिरति युवती भावममाप्य तवन्तिके पुरुषता कुखाय भवच्चलं तव पदं नय दीक्षणगोचरम् त्रिभुवनेषु भवत्रियं मम अम्बिके मम सदैव हि कीर्तिर्नाविला युवति भावमपाप्य पराम्बुजम् परिचितं तव संस्कृतिराशनम् भुवि विहाय तवासेवनं वाञ्छतिराज मकण्टकम् त्रुटिरसौ किलयाति युगात्मनां पतां न हरिकटं यदि चेङ्ग्रिसरोरुहम् तपस्वी निरता मुनोम तव विहाय पदुज पूजनम जननी किल वंचिता भवे परक न तपसा तपसान रीत सुर्थ तव पराब पराग निचे भवति मुक्तिरजे भवतागरात् कुरुदयां दयते यदि देवि मां कथय मन्त्रमना विलम्ब विलम्बभूतम् समभवमं प्रजपन् सुखितो ह्ययं सुविशरं च न वार्णम् मनुत्तमम् प्रथमजन्मनि चारि मया तद धृङ्गारणं विभति न वाक्षरः क्वथय ब्राह्मणमद्य भवर्णवान् जननि तारय तारक तारके ब्रह्मो वाच इत्युक्ता सा तदा देवी शिवे नाभूत उच्चचाराम्बिका मन्त्रम् प्रस्फुटम् च नवाक्षरम् तम् गृहीत्वा महादेव पराम् मोदम् अवापः प्रणम्ब्य चरणो देव्या तत्र वावस्थित शिव जपाण्डवाक्षरम् मन्त्रम् कामदम् मोक्षदम् तथा बीजयुक्तम् शुभोच्चारम् चङ्करस्तशिवांस्तदा तम् तथावस्थितम् दृष्ट्वा शङ्करम् लोकशङ्करम् अवोचन् ताम्बमयम् सितोऽहम् पदान्तिके न वेदा त्वामेवम् कलयितुमिहा सन्न पटव यत तेनोचु त्वाम् सकलजनधात्रीमविकलाम् यदा स्वाहा भूताय सकलमकहोमेषु विहिता तदा त्वम् सर्वज्ञा जननि खलु जायत त्रिभुवने कर्ताहं प्रकरोमि सर्वमखिलम् ब्रह्माण्डमत्युद्भूतम् को न्योतिहचराचरे त्रिभुवने मत्तः समर्थ पुमान् धन्यस्म्यत्र न संशय किल यदा ब्रह्मास्मिलोकातिगुरु मग्नोऽहं भवतागरे प्रवीतते गर्वाभिवेशादिभिः अद्याहं तव पङ्पङ्कजपरागादानगर्वेण वै धन्योऽस्मीति यथार्थवादनिपुणो प्रसादाच्च ते या चेत् त्वाम् भव नाच चतुरां मुक्तिपदां चेश्वरीम् इत्वा मोहकृतं महात् निगृहम् तद्भक्तियुक्तं कुरु अतोऽहं च धातो विमुक्त कथं जां सरोजादमे यात्वदा विकृताद्वये तवाज्ञाकर किं करोमीति नूनम् शिवे पाहि मां मोहमग्नं भवाधो न जानन्ति ये मानवास्ते वदन्ति प्रभुं मांसवाद्यं चरित्रं पवित्रम् यजन्ति ह ये याजका स्वर्गकामा न प्रभावं विदन्त्येव कामम् त्वया निर्मितोऽहं विहारं। विहारम् स्वीकर्तुं विधाया विधायादिसर्गम् अहम् वेद्मिकोऽन्यो विवेदादि माये क्षम स्वापराधं च अहङ्कार जम्बे श्रमं येष्टधा योगमार्गे प्रवृत्तात्र कुर्वन्ति मूढा समाधो स्थिता भे न जानन्ति ते नाम मोक्ष प्रदं वा समुच्चारितं दातु मातर्मिषेण विचारे परे तत्त्वसङ्ख्याविधाने पदे मोहिता नाम संविहाय न किं ते विमूढा भवाब्धो भवामि तमेवासि संसारमुक्तिप्रदावै परं तत् विज्ञानमाद्य जनैर्यै रजे चानुभूतं त्यजन्त्येव ते किम् निमेषार्धमात्रम् पवित्रम् चरित्रम् शिवाचाम्बिका नाम न किं विधातुं सम्वर्धासि विश्वम् सर्वं चतुर्धा विभक्तम् विनोदार्थमेवम् विधिम् मां विधायात् विसर्गे किलेदं करोषिति कामम् हरिपालकिंतया सोमधुर्वा तथा कैट कैटभाद्रक्षित सिन्धुमध्ये हर संहृत किम तय सो न काले कथम बे भ्रूवर्म्युरा दुष्ट श्रुत वे न कोपी हवे किराज्याशी जगती का भवानी रतो समस्े बोधितायुम विकर्म समो हरि श्रतुमम्ब त्वया संयुतश्चेत् हरसं प्रहर्तुं तयैवे हरियुक्तः क्षमानाद्य सर्वे त्वया विप्रयुक्ता यथाहं हरिशङ्कर किं तथा न्ये न जाता न सन्ति ह नो वा भविष्यन् न मोह्यन्ति केऽस्मिन् तवात्यन्तचित्रे विनोदे विवादास्पदे गुणस्पष्टैवाद्य देवो निरीहोऽनुपाधि सदैव कलश्च तथापिश्वरस्ते वितीर्णं विनोदं सुसम्पश्यतीत्याहुरेवं विधिन्या दृष्टा दृष्टविभेदेऽस्मिन् प्राक् तो परहे, न क्तृती प्रमेय सुविजयी सुविचारि न मिथ्या वेदवाक्यम वै कल कदाचन विरोधोये ब्रह्म तो विशंक एक आदि यद्रह्म वेदावद्वाप्यसवा संदेहं विनिवर्तय निसंशयं न वे चेत प्रभवत्य विषङ्गितम् वीतैकचित् वीतैकत्वविचारेऽस्मिन् निमग्नं क्षुल्लकं मनः स्वमुखेनापि सन्देहं चेत्तुमर्हसि मामकम् पुण्ययोगा मे प्राप्ता सङ्गति पुमानसी तं श्रीवासी वद विस्तरतो मम ज्ञात्वाहं परमां शक्तिं मुक्तस्याम्भव सागरात् इति श्रीमद्देवी भागवते मापुराणे अष्टादशसहस्रां संहितायां तृतीयस्कन्धे हर ब्रह्म कृतस्तुति वर्णनं नाम पञ्चमोऽध्यायः श्रीजगदम्बिकायार्पणमर्तु